चमकखनम् अनुवाकम् तु जैष्ट्यं चज्जैष्ठ्यं जैष्ट्यं च मे मे च च मे च चचम आधिपत्यमाधिपत्यं मे चचम आधिपत्यम् म मेम आधिपत्यं मेम आधिपत आधिपत चाधिपत्य मे चाधिप्यं मे आधिपत्यधिप्यम चे मे चे मुर्मुर्मे चे मे मन्युर्मन्युर्मे मे मन्युश्च च मन्युर्मे मे मन्युश्च मन्युश्च च मन्युर्मन्युश्च मे मे मे भामो भामो मे च मे भामः मे भामो भामो मे मे भामश्च च भामो मे मे भामश्च भामश्च च भामो भामश्च मे च भामो भामश्च मे च मे मे च च महा मे मोमो मे मे मश्च अमश्चचामोमश्चमे चामोमश्चमे च मे मे चचमेम्भोम्भो मे च मेम्भः मेम्भोम्भो मे मेम्भश्चचाम्भो मे मेम्भश्च अम्भश्चचाम्भोम्भश्च मे मे चाम्भोम्भश्च मे चमे मे च मे जे मा जे मा मे च मे जे मा मे जे मा जे मा मे मे जे च जय च जय मा च मे मे च जे च मे चमे च मे महिमा महिमा मे च महिमा मे महिमा महिमा मे मे महिमा चच महिमा मे मे महिमा च महिमा च महिमा महिमा च मे मे च महिमा महिमा च मे च मे मे च च मे वरि मा मे चच मे वरिमा मे वरि मा वरि मा मे मे वरि मा च वरि मे मे वरि मा च वरि मा च वरि मा च मे मे च वरि मा च मे चमे मे मे प्रधि मा प्रधि मे च च प्रधिमा मे प्रधिमा प्रधिमा मे मे प्रधिमा च च च च प्रधिमा मे मे प्रधिमा च प्रथिमा च च प्रधिमा प्रधिमा च मे मे च प्रधिमा प्रथिमा च मे च मे मे च च मे वर्ष्मा वर्ष्मा मे वर्ष्मा वर्ष्मा मे मे वर्ष्मा च च वर्ष्मा मे मे वर्ष्मा च वर्ष्मा च च वर्ष््मा वर्ष्म च मे मे च वर्ष्मा वर्ष्मा च मे च मे च च मे द्राक्षुया मे च च मे मे द्राखुया द्राया मे मे मे वृद्धं वृद्धं मे मे वृद्धं च च मे मे वृद्धं च च च वृद्धं मे मे च वृद्धं वृद्धं मे च मे मे च च मे वृद्धेर्वृद्धेर्मे च च मे मे वृद्धेर्वृद्धेर्मे मे वृद्धिश्च च वृद्धेर्मे मे वृद्धिश्च वृद्धिश्च च वृद्धेर्वृद्धिश्च मे मे च च वृद्धेर्वृद्धिश्च मे च मे मे च च मे सत्यगं सत्य मे च च मे सत्यं मे सत्यगं सत्यं मे मे सत्यं च सत्यं मे मे सत्यं सत्यञ्च च सत्यगं सत्यं मे मे च सत्यगं सत्यं मे च मे मे च च मे श्रद्धा श्रद्धा च च मे श्रद्धा मे श्रद्धा श्रद्धा मे मे श्रद्धा च च श्रद्धा मे मे श्रद्धा च श्रद्धा च च श्रद्धा श्रद्धा च मे मे च श्रद्धा श्रद्धा च मे श्रद्धे दिश्रद्धा च मे मे च च मे जगज्जगन्मे च च च च च मे जगद मे जगज्जगन्मे मे जगच्च च जगन्मे मे जगच्च जगच्च मे मे च धनं धनं मे धनं मे धनं मे मे धनं मे मे धनं च धनं धनं ज मे च धनं धनं जे च च मे वशो वशो मे च च वशः मे वशो वशो मे मे वशश्च चवशो मे मे वशश्च वशश्च वशश्च मे मे च वशो वशश्च मे च मे मे च च चचमे द्विषिहि मे त्वेषे स्वि मे द्विषिश्च चे शेर्मे मे द्विषिश्च द्विषिश्च चेशि स्विषिश्च मे मे चत्वेषि स्त्षिश्च च मे मे च च च मे क्रीडा क्रीडा मे च च क्रीडा मे क्रीडा क्रीडा मे मे क्रीडा च चक्रीडा मे मे क्रीडा च क्रीडा च चक्रीडा क्रीडा च मे मे चक्रीडा क्रीडा च च मे मे च मोदो मोदो मे च च मे मोदो मोदो मे मे मोदश्च च मोदो मे मे मोदश्च मोदश्च च मोदो मोदश्च मे मे चमोदो मोदश्च मे च मे मे च मे जातं जातं मे च च मे मे जातं जातं मे मे जादं जादन् च च जादं जातं च मे मे च जातं जातं च मे च मे मे च च च मे च च मे जनिष्यमाणं मे च जनिष्यमानं च च जनिष्यमानं जनिष्यमानं च मे मे च मे च मे मे मे सोक्तगुं सूक्तं मे च च मे मे सूक्तं मे मे मे मे सोक्तं च च सोपदगुं सूक्दं च मे मे च सुखदगं सूक्तं च मे सूक्तमि दि सु उक्तं च मे मे च च मे सुकृदगं सुकृदं मे च मे सुकृदं सुकृतं च सुकृतगं सुकृतं च मे मे च सुकृतगं सुकृतं च मे सुकृतमिति सुकृतं च मे मे च च च वित्तं वित्तं मे वित्तं मे वित्तं वित्तं मे वित्तं च च वित्तं च वित्तं च वित्तं वित्तं च मे मे च वेद्यं वेद्यं मे च वेद्यं मे वेद्यं वेद्यं मे मे वेद्यं वेद्यं मे मे वेद्यं च वेद्यं च च च वेद्यं वेद्यं मे च मे मे च च मे भोदं भोदं मे च च मे भोदं मे भोदं च च भोदं मे च भोदं च च भोदं भोदं च मे मे च भोदं भोदं च मे च भविष्यद मे भविष्यद्भविष्यन्मे मे भविष्यच्च च भविष्यन्मे मे भविष्यच्च भविष्यच्च च भविष्यद्भविष्यच्च मे मे च भविष्यद्भविष्यच्च मे च मे मे च च मे सुगगुं सुगं मे च च मे सुगं मे सुगगुम् सुगं मे मे सुगं च सुगं मे मे सुगं च सुगं च मे च सुगगुं सुगं च मे च मे मे च च मे सुपधम् मे सुपथगं सुपधं मे मे च सुपधं मे मे सुपथं च सुपधं च च च मेमे च मे सुपधमि सुपथं च मेमे च च मरुद्ध मृद्धं मे च चमरुद्धम् मरुद्धं मृद्धं मे मरुद्धं चर्धं मे मे च रुद्धं च चर्ध च मे मे चर्धं च मे च मे मे च च मरुद्धिवृद्धिर्मे च वृद्धिश्च चार्धिर्वृद्धिश्च मे मे मे च मे मे च च मे क्लोरोक्तं क्लोरोक्तं मे च च मे मे क्लरोक्तं क्लोरोक्तं मे मे मे मे क्लोरोक्तं च क्लुरोक्तं च जग्ररोक्तं क्लुरोक्तं च मे मे जग्रोक्तं क्लुरोक्तं च मे च मे मे च मे क्लरोक्ते क्लरोक्तेर्मे च मे क्लरोक्तेः मे क्लरोक्ते क्लरोक्तेर् मे मे क्लरोक्तेश्च ज क्लरोप्तेर् मे ज क्लरोक्ते क्लरोक्तेश्च मे ज क्लरोक्ते क्लरोक्तेश्च मे मे मे च च मे मध्यर्मधि मे मधिर्मदिर् मे मे मदिष्ट च मदिर् मे मे मदिश्च मे मे च मधिर्मदिश्च मे च मे मे च सुमदेश्च च सोमदे सोमदिश्च मे मे च सुमदि सुमदिश्च मे सोमदि सो मदिहि च मे मे